कृष्णयजुर्वेदतैतरीयारण्यके चतुर्थप्रश्नः प्रारम्भः ॐ नमोऽनुमदन्तु ॐ शान्तिः नमो वाचे याचोदिता याचानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नमृष मन्त्रकृभ्य मन्त्रपदेभ्य मामामृषय मन्त्रकृत मन्त्रपदयः परा धर्मा मृषी मन्त्रकृत मन्त्रपदेत्याश्रयम् शिवामदस्ताञ्जुष्टाम् देवेभ्यः शर्म मेत्यो शर्म पृथिवी शर्म विश्वमिदम् जगद शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्म प्रजापति भोदम् वदिष्ये भुवनम् वदिष्ये तेजोवदिश्ये कृशोवदिश्ये तपोवदिश्ये ब्रह्मवदिष्ये सत्यं वदिष्ये सम्मा अहमिदमुभस्तरण उभस्तरण उभस्तरणम् मे प्रजायै पशूनाम् भूयादुभस्तरणमहम् प्रजायै पुशूनाम् भूयासम् प्राणापानो मृत्योर्मापासं प्राणापानो मामाहादिष्टम् मधुमनुष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमदीन् देवे त्यासु दुश्रूषेण्याम् मनुष्येभ्यः देवावन्तु शाभायै कृतरोनुमदन्तु ओम् श्याम् त्रिश्याम् ऋश्याम् जिः युञ्ज देवनवतयुञ्जतेयः विप्रा विप्रस्य बृहता विभश्चितः विदेकित मही देवस्य सवितः परिष्ः दे। देवस्य त्वा सवितः प्रसवे अश्विना बाहुभ्याम् उष्णहसाभ्यामाददे अभ्यसिभ्यः देवे उत्तिष्ठब्रह्मणस्पते देवेन्द्रस्वेमहे प्रेन्द्रवरदः सुदानवः इन्द्रप्रासोद्भवासजा प्रे गर्ब्रह्मणस्पतिः देव्ये दुसौदा अच्छा वीरनर्युम् मन्दिराधतम् देवायज्ञन्नयन्तुनः देवीत्यावापृथिवी अनुमेमपुंसाम् प्रध्यासमद्य मघशिरः मखायित्वा मघस्यत्वाशीर्ष्णे ग्रहासीः प्रध्यासमद्य मघशिरः मखायित्वा मघस्यत्वाशीर्ष्णे देवी एवं वीरस्य भूतस्य प्रथमचारुदावरीः प्रध्यासमत्या मघशिरः मखायित्वा मघस्यत्वाशीर्ष्णे इन्द्रस्य अध्यासमध्य मघस्यशिरः मखायित्वा मघस्य त्वाशीर्ष्णे प्रजापते मघस्यशिरः मघायित्वा मघस्यत्वाशीर्ष्णे आयुधैः प्रानन्देः अवानन्देः व्यानन्देः चक्षुद्धेः श्रोत्रन्धेः मनोधेः वाचन्धेः आत्मानन्देः प्रतिष्ठान्धेः मान्देहि मेधेः मृदत्वा मधुराकरोतु इत्यस्य पदे स्थः गायत्रेण त्वाच्छन्दसा करोमि त्वाच्छन्दसा करोमि जागदेन त्वाच्छन्दसा करोमि मुखश्च सूर्यस्य हरास्नाय मखोधि कृष्णो अश्वस्य निष्पदसि वर्णस्वाधुरव्रता वर्णयो ध्रुवेण धर्मणाषे त्वा श्रोतिषे त्वा ज्योतिषे त्वा तपसे त्वा अभीम् महिलायम् मित्रापभोवसप्रसाः ऋतश्रवसापृवीम् ज्योतिषनेत्रः श्रवो देवस्य सानसिम् ऋत्रश्रवस्त्रम् सिद्धीत्वा देवस्वासवितोद्वदौ स्वाणिस्वङ्माहृतशक्त्या अपद्यमानपृथिव्याम् आशादिश आवृण प्रतिष्ठबृन्दः गोध्वस्तिष्ठध्रवस्वम् सूर्यस्य त्वा चक्षुषां वीक्षे त्वाधरे त्वा भूतयित्वा गायत्रेण त्वाचम् नद्मि ते शुभेन त्वाचम् नदाक्षणद्मि त्यागदेन त्वाचम् नराक्षणद्मि देवपुरश्चरसङ्ख्यासन्ता ब्रह्म प्रचरिष्यामः होदर्घर्ममभिस्तु अग्ने द्रोहिणोडाशाधिश्रियाप्रस्थायुर्युक्तमभिराक्तन् दक्षिणाभिप्रदम्बारिष्णुम् सुभोगान्धमनस्यमानम् समारुजेणीमानः भोद्भवस्वन्दवन्त ्रह्मन् प्रचरिष्यामः यमायित्वा महायित्वा सूर्यस्य आदर्शयित्वा प्राणाय स्वाहाय स्वाहा बालाय स्वाहा चक्षुषे स्वाहा शाकाय स्वाहा स्वाहा वाचे सरस्वती स्वाहाय स्वाहा कलवे अर्चिरसिच्योतिरसि तपवसि महागुणम्प्रायाग्निःष्टः आयुन्मेधाः पुत्रवतीक्षणतः इन्द्रस्याधिपत्ये प्रजां मेधाः सुषतापश्चाद् देवस्यवृत्तेः आश्रितरुत्रतः श्रोत्रम् मेधाः ऋत्रपरिष्टाद् बृहत्पतेराधिवृत्ते ब्रह्ममेधाः क्षत्रम् मेधाः तेजोमेधा बुद्धोमेधाः विश्वमेधास्तपो मेधाः मनोमेधाः मनोरश्वादोरुपुत्रा विश्वाभ्योमानाष्टाभ्यपाहि रिचितः सह मृद्भिः परिश्रयस्व मा असि रमा अधि प्रतिमा अधि सम्माधि विमा अधि उन्माधि अन्तरिक्षस्यन्तर्धरसि निरन्तपस्रायस्व आभिव्येर्भरे नवोनम् आप्याय हरिवर्धमानः तदामिहि गोत्रा रजासिष्ठम शुक्रन्तेरूपे विश्वाहि माया अवस्वभाव्यजितम् विश्वरूपम् अर्हन् निदन्ते क्षिणात्रेण छन्दसा रोचय इन्द्रस्वारुदये दक्षिणतो रोचय तत्रैष्टुभेन छन्दसा स्मारुचितो रोचयस्वादिते पश्चाद्रोचयदया स्मारुचितो रोचय न्दः देवेष्वपि रोषयाहम् मनुष्येषु देवेष्वायुष्मागुस्तेदस्वै ब्रह्मवत्यस्यभिजितोऽहम् मनुष्येष्वायुष्मागुस्तेदस्वै ब्रह्मवत्यै भूयासम् यिधेःपुरस्ताद्रोधे ऋषदक्षिणा सनः सम्भ्राणि वाजीवाजिनेपवस्वा रोचितो घर्मोरुचीया अपश्यङ्गोपामनिपद्यमानम् राजपराजपद्भ्यश्चरन्तम् ससध्रीजे सविशुरुधानः आवरीवृत्तिभवनेश्वन्दः तत्र प्रावीः मधुमाधीभ्याम् मधुमाधुजीभ्याम् हनुमान् देववीतये समग्निरज्ञनागता सन्देवेन सवित्रा समुं सूर्येण रोचते स्वाहा समज्ञागता सन्देवेन सवित्रा समुं सूर्येणा रोचिष्टा धर्ता दिवो विभासरजतः दिव्यादस्ता गुरोरन्तरिक्षस्य धर्ता देवो देवानाम् अमृत्यस्तमोजाः ब्रह्मणस्पदेश्रोस्वन्देवमस्मे नेच्छ देवायम् पितामदीनाम् उतिः प्रजानाम् उतिः कवीनाम् स्वन्देवो देवेन स वित्रायधिष्ठा सुेणारुक्ता आयुधाः समभ्यम् धर्मवर्चोदा असि पितानोऽसि पितानो बोधा आयुधाश्च नोधाः पयोधाः वचोदापरिबोधाद्रविनोदाः अन्तरिक्षप्रवलोर्वरीया श्रीभिः त्वा माहिर्विशांसि विश्वासाम् मानुषीणां स्वोभ्यर्यविष्टबाह्यमुहतः सन्तुमती देशपेया श्वेतारे लोदधाना विलम्बिते यतव सन्दृशि माहगोरायस्पोषेण वियोषम् देवस्य त्वासवितुष्टसवे अश्विना बाहभ्याम् भूष्णो हस्ताभ्यामाददे अतिथैलास्नासि विलयैः अतिथयैः सरस्वत्यैः तवादेहि तवादेहि अदित्यौ उष्णेशमये भैरस्येडा गुषात् तोबा गजजदौ अश्वभ्यामृदाभया एसतेस नमस्ते यो मोयो यभो येन मिश्रौ वشتबालियाणि तत्र तदा वसैत्य स्वदत्रः सरस्वतितम यदातवेका उस्त्रकर्मकौ सिंषा उस्त्रकर्मम पाहि धम्माले सिंषा बृहस्पतस्स्वापदेदौ दानवस्थ भैरवः ईश्वरकृपालो हिदेना अश्विज्ञाम् बिन्वस्व सरस्वत्यै बिन्वस्व कूष्णे बिन्वस्व बृहस्पदये बिन्वस्व इन्द्रायि बिन्वस्व इन्द्रायि बिन्वस्व गायतोऽभि यागतमभि सहोद्यो भागेन वनैः इन्द्राश्विमधनस्या रघस्य धर्मट स्वाहाय विष्णुवनयुरोमिरसि सूर्यस्य तमस्तवाम् वा परिगृह्णामि अन्तरिक्षेण त्वोपयच्छामि स्वाहा य त्वावादाय स्वाहा अप्रश्याय त्वावादाय स्वाहा त्वावादाय स्वाहा त्वावादाय स्वाहा त्वावादाय स्वाहाये त्वादे स्वाहा स्वमायत्वार्दे स्वाहायत्वा ऋदे स्वाहा बृहस्मृतये त्वा सवित्रे त्वार्भदे विभमदे प्रभुमदेवाजे स्वाहा <Sess> स्वाहा विश्वाशा दक्षिण विश्वान् देवानया स्वाहाज्ञेयाय श्रुर्भिः अश्विना घर्मम् वादगमहार्दिवानम् अहर्तिवाभि रोद्विः स्वाहेन्द्राय स्वाहेन्द्रावनाहार्दिवानम् अहर्दिवाभिरुभिः अन्तरिक्षम् गच्छीम् गच्छ देवान् धर्मपान् गच्छन्धर्मपान् गच्छीभिः धर्माय धर्मा मे यस्मे ब्रह्माणि धारय क्षत्राणि धारय इषन् धारय मे द्वादस्कन्दयात् दुष्यत्वा प्राणे साधयामि अमनाथ यत्थम् गच्छ योऽष्टि वयम् दृष्मः कूष्णेश्वरसे स्वाहाभ्यस्वाः ऋत्रेभ्यस्वाहाभ्यः स्वाहा पितृभ्यभिर्भवेभ्यस्वाहाद्रायि रुद्रो त्रेस्वाहा ज्योतिः वेदनादिषुताम् रात्रिज्योतिषतान् ज्योतिर्ज्योतिषास्वाहान् नीमापाहिषा ते अग्ने समिद तयासमिध्यस्वा आयुर्वेदाः उच्चता माञ्जीः अपि परो मारात्रियान्नो मापाहि एषा ते अग्ने समिद ते असमिध्यस्वा आयुर्वेदाः पृच्छता माञ्जीः अग्निर्ज्योतिर्ज्योतिरग्निस्वाहा सूर्योज्योतिर्ज्योतिसूर्यस्वाहा भूस्वाहा हुतकम् हविः मधु हविः इन्द्रतमेऽग्नौ तानोऽ मामाहिपुंसीः पश्यामते देवघर्मा मधुमतो वाजवतः पितुमतः मामा हिवंसीः स्वाहा सूर्यस्य रश्मिभ्यः स्वाहा नक्षत्रेभ्यः इदम् मया ते दिविशुग या ब्राह्मणे याः विधाने कान्त एतेना वैदे स्वाहा धर्मयातेन्दरिक्षेशुग या, या, या त्रैष्टिभे छन्दसि या राजन्ये याज्ञीध्रे तान्त एतेना वैदे स्वाहा धर्मया ते पृथिव्यागुंशुक या जागते छन्दसि या वैश्ये या सदसि कान्त एतेना वैदे स्वाहा अरुणोद्यानुमतिः याः अन्तरिक्षस्य धनुवः पाहि पृथिव्या स्वाधम्णा भयमनुक्रामामसुविधापरस्पायाः क्षत्रस्य धनुवः पाहि शिषस्वाधर्माणा अयमनुक्रामामसुविता इलव्यसे प्राणस्य त्वापरस्पायैः चक्षुषस्तन्वःपाहि शोत्रस्य याः श्री सञ्जवक्षिपरिजवक्षी चाय शर्मसप्रभाः अपद्वेषो अपह्रः अन्यत्रा जप्यासि स्म्रीमहि च वयम् आजप्यासि श्रीमहि तन्नर्नामासिव्योगन्धर्वः तस्य ते पद्वद्धविधानम् अग्निरध्यक्षाः रुद्राधिपतिः महामायुषा सम्भ्राणेन संवर्चता सम्भयता सङ्गोभृत्येन वयम् विष्णः अचिकृतृषाहरि महान्मित्रानुदर्शितः षोसूर्येण लोचिते चिरस्य समुद्रयानिः इन्दुदक्षस्येन हृदा वा हिरण्यपक्षस्य गुणोऽन्यो महान् गृहस्ते ध्रुवानिषत्तः क्षम् <imitation> प्रजानादीनम् एतत्त्वम् देवघर्मदेवो देवानुपागाः मनुष्यो मनुष्यान् सोमबीधानुमेहि सह कृपोषेण सुमित्राणाभोषधे सन्तुस्तस्मै भूयासो योऽस्मान्वेष्टी किञ्च भगिम् दुष्मः अग्ने देवेषु प्रवोचः पयो पुत्रा योगर्भाधिवनस्पति नामौषधी नागोरन्स्वर्गम् अस्काञ्जोः स्कन्ने माविश्वाभोना स्कनो यज्ञप्रजयस्कानुजनिप्राजिनि आस्कन्नाद्यायदेव स्कन्नाषेमिः यास्ताः तान्त या दक्षिणतः याद् योत्तर जे सरस्वत्ये स्वाहा कूष्णे स्वाहा भूष्णे शरसे स्वाहा कूष्णे प्रबुद्ध्या स्वाहा भूष्णे निरन्धिरा स्वाहा कूष्णे घृणये स्वाहा भूष्णे धरुणा स्वाहा कूष्णे साकेतास्वाहायन् धर्मशिरीश्रियम् प्रजयापतिश्वासादे नामा संवत्सरोसिद्ध तस्य दे देव सुन्दर्शः दे ग्रीष्मोदक्षणपक्षः पुरुषाच्छम् शरदुत्तरपक्षः हेमन्दोमध्यम् पूर्ववृक्षाश्रयः अहोरात्राणि तस्य देमासाश्चाद्धाम्पन्ताम् संवत्सरस्ते कल्पताम् अहोरात्राणि कल्पन्ताम् देवदयाङ्गीया भूद्भुवस्तुवः भोद्भूषणभूते बोध्वानः पार्श्वे बहूनाम् युवानगोसन्तम् बलितो हित्वात्या मरा सह्यसमाना यदि तेजिदभिः पुरा यत्रभ्य आदृतः सन्धाता सन्धिम् मघवा पुरोसो निष्कृत्ताविष्कृतम् पुनः पुनरोद्यासहरय्या मानोघर्मव्यथितो विव्योनः मानःपरमधर्मारजोनैः मस्यन्तराधाः मा रुद्रियाभिर्भृधानः मारस्मान् मापराधाः मानो रुद्रो निरृतम् मानोस्ता माद्याम् अन्वादी मिहनः सखाया आदित्यानाम् प्रतिगृहैः उग्राशितापाघविषायामि सत्त्वग्ने े अयासिपन्नाः वोद्भवस्वधायम्भातु मे आहोदासः याजाज्योतिषासः यज्ञे अपेदासः ब्रह्मनादेयदासः क्षत्रेणसः सत्ये रतपसासः तस्य धीमिः तस्य सुम्भमधीमिः तस्य भक्षमधीमिः तस्य इन्द्रेण भक्षयामि घोरास्त्वः क्षुच्चतृष्णा च अश्विज्ञानामदिश्च श्रेयादिपिपामदिश्च एता घोरास्त्वं गच्छि किञ्च वयम् द्विष्मः श्रीकृष्णैः गच्छेष्टिन्दश्चनश्च ध्वनैकृश्च विलिम्बस्य विलम्बश्च विक्षपः उग्रश्च ध्वनिश्च ध्वनश्च ध्वनैकृश्च सहस्रस्वागुश्च रमानश्च सहस्वागुश्च रहीयागुश्च एत्यप्रेत्य विक्षुपः भ्यः अग्ने अग्निस्व मृत्यो मृत्युनाथं वदस्व नमस्तेऽस्तु भगवः सकृते नमः त्रयस्ते नमः अञ्चकृत्वस्य नमः दशकृत्वस्ते नमः शतकृतस्य नमः मातकृत्वस्य नमः अपरभितकृत्वस्य नमः नमस्तेऽस्तु मामायुङ्गीः असन्मुखरुजेणा व्यक्तः दो दो भवस्य दोतस्वर्पितावधि कृद्रस्वपन्नः क्षणपन्निषेवसे दोतःप्रहितो भवस्यन्द्राग्नि ब्रह्मासंविदानो शिवामस्मभ्यम् कृतम् गृहेषु दीर्घमुखगृहण् मास्वदक्षिणतो वद यदि क्षणतोपदासैरूपशयाग्नेभूतान्यन्वाविश्य देवीम् वाचम् मदधि निशतो नः परापदा तान् मृत्यु मृत्यवेलयार्तिमार्च्छन्तु अग्निनाग्निः सम्मतताम् प्रसार्यस्य उपदधि सव्यमक्षिनिवेपि च मेहकस्य च नामवदणात्वाक्रमेहन्मि खण्वेन ज्ञा विश्वामसो ब्रह्मणाहतः कृमीणागोराजा अप्लिषाहतः अथो माता सोपिता थो स्थूलाथो क्षुत्राः थो कृष्णाथो श्वेताः तो आशादिकाहताः श्वेताभिः सह सर्वे हताः आहरावद्य श्रुतस्य अभिशोयथा तत्सत्यम्भयोः आदधामि तदा हितमसि ब्रह्मणा त्वा शपामि ब्रह्मणस्वा शपथेन शपामि घोरे तल्पेनाशया योऽ किञ्च वयं द्विष्मः नृन्नाय नृम्नाय नृम्नायो वायु निधायो वायु निधायो वायि अस्मे अस्मेर्णज्योतिः समिन्धे सा मा समिद्धा आयुषा तेजसा मृत्य विषदा ब्रह्मवर्त्यसेन अन्नाद्येन समिन्तागुस्वाहा अन्तरिक्षगो समिद ताम् वायुश्रमिन्धे सा वायुगोसमिन्धे सा महगोसमिन्धे सा मासमिद्धा आयुषातेजसा वर्तता श्रिया इषदा ब्रह्मवर्क्षसेन अन्नाद्येन समिन्तागुस्वाहा जौ समित तामादित्यश्रमिन्धे सा नित्यगोसमिन्धे सा महगोसमिन्धे सा मासमिद्धा आयुषातेजसा वत्यसा श्रिया ्रतपदेजरिष्यामि तक्षगे इन्द्रन्मे राज्यराम् वायो व्रतपद आदित्यम् व्रतपदे पृथञ्जरिष्यामि रक्षगे इन्द्रन्मेराध्यराम् यो समिदमादित्यस्मिन्धे सादित्यगुमसमिन्धे सा महगुणसमिन्धे सा मा समिद्धा आयुषातेजसा वर्तदाश्रिया इषदा ब्रह्मवर्तसेन अन्नाद्येन समिन्दाविस्वाहासमित सा वायुगुणसमिन्धे सा महगुणसमिन्धे सा मासमिद्धा आयुषातेजसा वर्तदाश्रिया इषदा ब्रह्मवर्तसेन अन्नाद्येन समिन्धाविस्वाहाीसमित् तामग्निस्वमिन्धे सा अग्निगोसमिन्धे सा सा मासमिद्धा आयिषा तेजसा वृक्षसा श्रिया इषदा ब्रह्मवर्चसेन अन्नाग् समन्ता विस्वाहा राजापत्यामे समित सर्वत्नक्षीणी रात्रौ इहा मे स्वाहा आदित्यव्रतपदे प्रथमचारुषम्मे राधि आयो व्रतपतेज्ञे व्रतपदे व्रतानाम् व्रतपदे प्रथमचारुषम् तदशकन्तन्मे राधिपवतारिष्वा शन्नश्च परसूर्यः शिवानश्चन्तमाभवीका सरस्वतीमः ेषः विश्वभेषम् मे अन्य आवादपरान्यो वाद्रपः वाद गृहे मृतस्य नितिरहितः ततो नो देहि जीवसे ततो नो देहि भेष ततो नोमः आवहवात आवा तु भेषम्भोर्म योभोर्नो हृदे कृण आयुवंशितारुषे इन्द्रस्यन्प्रवद्ये स गुश्रास्वः सह इम्मे स्थितेन भो प्रवद्ये भुव प्रपद्ये सुवप्रभद्ये भूर्भुवः सुवप्रभद्ये वायुम् प्रपद्येनार्तान्देवताम् प्रपद्ये श्माणमाखनम् प्रवद्ये प्रजापतेर्ब्रह्मकोशम् ब्रह्म प्रबध्य ओम् प्रवर्जे अन्तरिक्षम् पूर्वन्तरम् मयि प्रजाम् मयि यज्ञस्तेजोधातु मयि मेधाम् मयि प्रजाम् मयीन्द्रेन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातुपादमस्मानदृष्टेभिः ीत्रायामृता नामधाशिलालजयसु अभीषत्सखी नामभवा श्रुतिः प्रियमेधानाथमानाः स्तस्मै भूयाधर्योस्मान् ज्येष्ठेष्णः आभोयिष्ठामि यो भवस्तानपूर्जे दधातना यक्षते योतमोरस्तस्य भारी देहनः न्तरिक्षकौ शान्तम् तत्त्वागिना शान्तम् सुचकौ समयौ यौ शान्ता शान्तामे शान्तासुकौ समयौ पृथिवीशान्तर्दिशान्तर्वायुश्यादिनक्षत्राशान् दिरापश्याध्यान् निर्मनस्पदयशान् दिर्गोशान्त रजाशान्तरश्वः चतुष्पदे च शान्तिम् करोमि शान्तिर्मेस्तु शान्तिः ये हश्रीश्च श्रीश्च धृतिश्च तपो मेधाप्रदिष्टा श्रद्धा धर्मश्चैतानिष्ठन् दमनोत्तिष्ठन् दमाश्रीश्च श्रीश्च धृतिश्च तपो मेधाप्रदिष्टा श्रद्धाधर्मश्चैतानि मायुषा स्वायुषो दोषधीनागोर्जुन्यस्य च्चक्षद्येवैरस्ताच्छुक्रमुच्छर पश्येम शरदश्चीवेम शरदस्यदन्मन्दाम शरदस्यदम् मोदाम शरदस्यदम् भवाम शरदस्य तदगोष्णवाम शरदस्यदम् प्रप्रभाम शरदस्यदमतीतास्याम शरदस्यदञ्जोच्छसूर्यम् दृशे य उदकान्महतोन्वाद्भिप्रायमानस्य हृदस्य मध्यात्समापृषभोराहिताक्षस्सूर्यापिमस्यन्मनतापनातु ब्रह्मश्चोदन्यसि ब्रह्मण आणीश्च ब्रह्मण आपनमसि धारितेयम् पृथिवी ब्रह्मणा महीधारितमेन पृथिवी गोसदेवान्ययाणि मामद्वेदोधा मनीषे माविशताी भूतस्य भव्यस्यावृद्धि सर्वमायुरयाणि सर्वमायुरयाणि हरिवर्धमानः यदा गोत्रा रजासि भूयिष्ठवाजोधयस्याम ब्रह्म प्रामादिष्मदीर ओम् दिश्यान्दिशान्तिः नमो नु मदन्तु ओम् शान्तिः इति आरण्यके चतुर्थः प्रश्नः समाप्तः